पद्मषण्डाकुलाभिश्च हंससेवितवारिभिः गङ्गासिन्धुप्रकाशाभिः परिखाभिरलङ्कृता प्राकारेणार्कवर्णेन पाण्डरेण विराजिता वियन्मूर्ध्नि निविष्टेन द्यौरिवाभ्रपरिच्छदा नन्दनप्रतिमैश्चापि मिश्रकप्रतिमैर्वनैः भातिचैत्ररथम् यथा वैभ्राजप्रतिमैश्चैव सर्वर्तुकुसुमोत्कटैः भातितारापरिक्षिप्ता द्वारका द्यौरिवाम्बरे भातिरैवतकः शैलो रम्यसानुर्महाजिरः पूर्वस्याम् दिशि रम्यायाम् द्वारकायाम् विभूषणम् दक्षिणस्याम् लतावेष्टः पञ्चवर्णो विराजते प्रतीकाशः पश्चिमाम् दिशमाश्रितः सुकक्षो राजतः शैलश्चित्र पुष्पमहावनः उत्तरस्याम् दिशि तथा वेणुमन्तो विराजते मन्दराद्रिप्रतीकाशः पाण्डरः पाण्डवर्षभ चित्रकम्बलवर्णाभम् पाञ्चजन्यवनम् तथा सर्वर्तुकवनम् चैव भाति रैवतकम् प्रति लतावेष्टम् समन्तात्तु मेरुप्रभवनम् महत् भातितालवनम् चैव पुष्पकम् पुण्डरीकवत् सुकक्षम् परिवार्यैनम् चित्रपुष्पम् महावनम् शतपत्रवनम् चैव करवीरकुसुम्भि च भातिचैत्ररथम् चैव नन्दनम् च महावनम् रमणम् भावनम् चैव वेणुमन्तम् समन्ततः भाति पुष्करिणीरम्या पूर्वस्याम् दिशि भारत धनुःशतपरीणाः केशवस्य महात्मनः महापुरीं द्वारवतीं पञ्चाशद्भिर्मुखैर्युतां प्रविष्टो द्वारकां रम्यां भासयन्तीम् समन्ततः अप्रमेयां महोत्सेधां महागाधपरिप्लवां प्रासादवरसम्पन्नाम् श्वेतप्रासादशालिनीं तीक्ष्णयन्त्रशतघ्निभिर्यन्त्रजालैः समन्विताम् आयसैश्च महाचक्रैर्ददर्श द्वारकाम् पुरीम् अष्टौ रथसहस्राणि प्राकारे किङ्किणीकिनः समुच्छ्रितपताकानि यथा देवपुरे तथा अष्टयोजनविस्तीर्णामचलाम् द्वादशायताम् द्विगुणोपनिवेशाञ्च ददर्श द्वारकाम् पुरीम् अष्टमार्गाम् महाकक्ष्याम् महाषोडशचत्वाराम् एवं मार्गपरिक्षिप्ताम् साक्षादुशनसा कृताम् व्यूहानामन्तरा मार्गाः सप्त चैव महापथाः तत्र साक्षान्नगरी विश्वकर्मणा